सहामानम् सहोचितम् सर्जितम् गो गोचितम् सन्धनाजितम् ये ढ्यन्नामह् इन्द्रामायुष्मान् भूयासम् विशासहेन्दहामानम् सासहानम् सहेषाम्सम् सा सहामानम् सहा सहोचितम् सर्जितम् गो गोचितम् सन्धनाजितम् एड्जन्नामः इन्द्रम् प्रिय देवानाम्भूजासम् ह्यासहिंसहामानम् सासहानम् सहीयांसम् सहामानम् सहोचितम् सर्जितम् गोचितम् सन्धनाजितम् एद्यन्नामक् इन्द्रम् विषासहिंसहमानम् सासहानम् सहेयांसम् सहमानम् सहाजितम् सहा सहा सहा सज्जितम् भोजितम् सन्धनाजितम् ये यन्नामप इन्द्रम् प्रियःपशोणाम् भो यासम् विषासहिंसहमानम् सासहानम् सहेयांसम् समानम् सहोचितम् सर्जितम् गोचितम् सन्धनाजितम् ईड्यन्नामस्प इन्द्रम् प्रियः समानानाम् भोयासम् उदरे शुचिदेहि गोर्यवर्चा सा माभ्यदेः विषांश्च मह्यम् वीर्याणि वन्नः प्रणेः पशुभिविश्वरो वे सुधायाम् माधेः परमे व्योमन्न उदेः सूर्यवर्चा सामाभ्यदेः यांश्च वश्याहमियांश्च नेशो मा सुमादिम् ग्रथितवेद्विष्णोधा सन्न प्रणेः पशुभिर्विश्वपये सुधायाम् माधेः परमेऽव्यामन् मात्मा धंस शरीरे अक्स्वा आन्तर्ये पाशिना उपातिष्ठन्त्यत्र हिताशस्य पामारुक्षयेताम् स नामृणसुमातौ ते अस्य मतमेद्यस्मा तन्नः प्रणेः पशुभिर्विश्वपैस्तुधायाम् माधेः परमे व्योमन् तन्न इन्द्रमहाते सौभागायादब्ध्येभिः परे बाह्यक्तुभिः स्थमे कृष्णो बहुधा वीर्यानि तन्नः प्रणेः पशुभिर्विश्वपैस्तुधायाम् माधेः परमे व्योमन् वन्न इन्द्रोदिभिः शिवाभिः सन्दमो भव आरोहं सु दिवम् दिवो गृहानः सोमवेदये प्रियधामा स्वस्थये तवेद्भिस्मा बहुधा वीर्याणि पन्नः तृणेः वशधर्विश्वपये सुधायाम् माधेः परमे व्योहमन् त्वमिन्द्रासि विश्वजित्सर्वाचित्पुरहोतस्त्वमिन्द्र तमिन्द्रेमम् सुहवम् स्वमवेदयस्वसनातौ देवस्यामतमेद्विष्णो बहुधा वीर्यानि तमन्नः प्रणेः पशुभिर्विश्वरूपे सुधायाम् विप्रेक्षिव्यामृतासिनत आहर्महिमानामन्तरिक्षे अदध्येन ब्रह्माणावावृधानः सत्त्वन्न इन्द्रदिविशम् कर्म यच्छतभेद्विष्मा बहुधा वीर्याणि तन्नः प्रणेः पशुभिश्वरोपये सुधायाम् माथेः परमेव्यो मन् यात इन्द्रतनो रप्सया प्रच्छव्या यान्तरग्नो यात इन्द्रपगमाने सर्विच येन्द्रतम्बा आन्तरिक्षम्यापितया न इन्द्रतम्बा आशर्मायच्छत वेद्व्यष्टापहुधा वीर्याणि तन्नः प्रणेः पशुधर्विश्वरोपये सुधायाम् माधेः परमेव्योमन् वामिन्द्र ब्रह्म वर्धयन् दः सत्रन्निषय दर्षयो न मास्तवे द्विष्मा बहुधा वीर्यानि तन्नः प्रणेः वशुधर्विश्वरोपये सुधायाम् त्वम् धृतम् त्वम् पर्ये शुत्सम् सहस्राधारम् विदधम् स्वर्विधम् दवेद्विष्णो बहुधा वीर्याणि त्वन्नः प्रणेः पशुभिर्विश्वपै सुधायाम् माधेः परमेव्यो मन् रक्षसे प्रदिशश्च दश्रस्त्वम् विभासि मिमाविश्वाभुपनानो तिष्ठस रतस्य पञ्चामन्वेहेषु विद्वांस्तवे द्वेष्मा बहुधा वीर्याणि सन्न प्रणेः पशुभिर्विश्वरोपये सुधायाम् माधेः परमेव्यो मन्म पञ्चभिः फलान्तपश्च यार्वाधश्चिनेषु श्रुतिने बाधमानः स्तवे बहुधा वीर्यानि तन्न प्रणेः पशुभिर्विश्वरोपैः सुधायाम् माधे परमे व्यामन् त्वमिन्द्रस्त्वम् न हेन्द्रस्त्वम् लोकस्त्वम् प्रजापतिः तुभ्यै यज्ञो वितायते तुभ्यम् जुह्वपद् जुह्वपदस्तभेद्विष्णो बहुधा वीर्याणि ध्वन्नः प्रणेः पशुभिर्विश्वरोपये सुधायाम् माधेः परमे व्योमन् असति सत्प्रतिष्ठितम् सति भूतम् प्रतिष्ठितम् भूतम् भूते प्रतिष्ठितम् बहुधा वीर्याणि ध्वन्नः प्रणेः पशुभिर्विश्वरोपये सुधायाम् माधेः शुक्रासिभ्राजोऽसि स यथा त्वम् भ्राजताभ्याजोऽस्येवाहम् भ्राजताभ्याज्यासम् रुचेरसि रोचोऽसि स यथा त्वम् वृच्या रोचोऽस्येवाहम् वसुभ्यश्च ब्राह्मणवर्चासेन जलसिहीय उद्याते न मा उदायते न म उदिताय नमः विराजे नमः स्वराजे नमः सम्राजे नमः अस्तयते नमोऽस्त्वमेश्व नमोऽस्तमिताय नमः विराजे नमः स्वराजे नमः सम्राजे नमः उदगाधयमादित्यो विश्वेन तपासा सह सपध्नान्मह्यम् बन्धयन्मा चाहम् देशतेन ष्णो बहुधा वीर्याहाणि वन्नः प्रणेः पशुभिर्विश्वरोः वये सुधायाम् स्वस्तये अहर्माच्यापेपोरात्रिम् सत्राधे पारय स्वस्तये रात्रिम्मात्यवेपरोहः सत्ता देपालय प्रजापतेरावृतो ब्रह्मणावर्माणाहङ्गश्यवस्य ज्योतिषावर्चसा चरदश्चिः कृतवेव्यो विहाया सहस्रायुः सुकृदश्चरेयम् परेऽवृतो ब्रह्मणावर्माणाहङ्गश्यवस्य ज्योतिषावर्चसा च मा प्रापन्निष गोदैव्याय मा नो शीरवा सृष्टावधाय ऋतेन गुप्तऋतुभश्च सर्वैर्भूतेन गुप्तो भूव्यहम् मापत्पाप्मा मोदरुप्तिरन्तर्तधेहंसालेन ध्यर्मा गोप्ता बले पाद विश्वत बुद्ध्यान् सूर्योऽनुगता मृत्युपाशान् युच्छन्ते रसः पर्वादाध्रुवाः सहस्रम् प्राणामय्यायत